केन्द्र त्रिलोचनाय भस्माङ्गरागाय महेश्वराय नित्याय शुद्धाय दिगुबराय तस्मै नकाराय नमः शिवाय नीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ृन्द सूर्याय कक्षाध्वरणाशकाय श्रीदीनकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय वसिष्ठकु देवार्जितशेखाय चन्द्रार्कवैश्वानरेलोचनाय तस्मै वकाराय नमः शिवाय यक्षस्वरूपाय जटाधरा हस्ताय सनातनाय दिव्याय देवाय दिगौबराय तस्मै यकाराय नमः शिवाय chiva